नारदपुराणं पूर्वार्थम् अध्यायम् नयन। नारद उवाच शब्दः कथं वसिष्ठेन सौदासो नृपसत्तमः गङ्गाबिन्दूभिषेकेण पुनः शुद्धो भवत्कथम् सर्वमेदशेषेण भ्राधर्मे वक्तुमर्हसि शृण्वदां वददां चैव गङ्गाख्यानं शुभावहम् सनक उवाच सौदास सर्वधर्मज्ञ सर्वज्ञो गुणवाञ्छुचिः भुजे पृथिवीं सर्वां पितृवद्रञ्जयन् प्रजाः सगेरणधाम् महीयं सप्त सागरा रक्षिता तद्वदमुना सर्वधर्मा विरोधिना पुत्रपौत्रसमयुक्तसर्वैश्वर्यसमन्वितः त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा सौदासस्त्वे मृगयाभिरधिर्वनं विवेच सबलः सम्यक् चोधितं ह्यासमन्त्रिभिः सहितस्तत्र विनिख्रन्मोघसंचयम् आससादनदीं रेवां धर्मज्ञः सपि सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने भुक्त्वा च मन्त्रिभिः सार्धं तां निशां तत्र चावसद तदप्रादसमुद्धाय कृत्वा वने वनाध्वनान्तरं गच्छन्नेक एवमहीपतिः आकर्ण कृष्णबाणः कृष्णसारं समन्वगाद दूरसैन्योश्वमारूढः स राजानव्रजन्मृगं व्याघ्रद्वयं गुहासंस्तमपष्ठम् पश्यत् सुरते रतं मृगपृष्ठं परित्यज्य व्याघ्रयोः सम्मुखं ययौ धनुसंहितबाणेन तेनासौ शरशास्त्रविद तां व्याघ्रीं पादयामास तीक्ष्णाग्रनतपर्वणा पदमानादो स त्रिंशद्योजना धोर तडित्वघोरनिर्घोषा राक्षसी विकृता भवद् पतितां स्वप्रियां वीक्ष्य द्विषन्सव्याघ्रराक्षसः प्रतिक्रियां करिष्यामीत्युक्तवाचान्तर्दधे तदा राजादु राजाभयसंविघ्नो वने सैन्यं समेत्यज तद्वृत्तं कथयन् सर्वान् स्वां पुरीं सन्न्यवर्तत शङ्कमानस्तु तद्रक्षः कृत्याद्राजा सुदासद्यः परितत्याजमृगयां ततः प्रभृति गे बहुतिथे काले हयमेधमखं नृपः समारेभे प्रसन्नात्मा वसिष्ठाद्यमुनीश्वरैः तत्र ब्रह्मादिदेवेभ्यो हविर्गत्वा यथा विद्धि समाप्य यज्ञनिष्क्रान्तो वसिष्ठस्नातकोऽपि अत्रान्तरे राक्षसोऽसौ नृप हिंसितभार्यकः कर्तुम् प्रतिक्रियां राज्ञे समायातो रुषान्वितः स राक्षसस्तस्य गुरौ प्रयादे वसिष्ठवेषम् तु तदैव धृत्वा राजानमभ्येत्य जगादभोक्ष्ये मां सं समिच्छाम्यहमित्युवाच भूयः समस्ताय ससूदवर्षम्भक्त्वामिशम् अनुपमस्य वादाद् स्थितश्च राजाभिहरियः पात्रे धृत्वा गुरोरागमनम् प्रतीक्षन् तन्मांसं हेमपात्रस्थं सौदासो विनयान्वितः समागताय गुरवेदौ तस्मै ससादरं तं दृष्ट्वा चिन्तयामः स गुरुः किमिति विस्मितः अपश्यन्मानुषं मां परमेण समाधिना अहोस्य राज्ञो दौशील्यमभक्ष्यं दत्तवान् मम इति विरमयमापन्न प्रमन्युरभवन्मुनिः अभोज्यं मद्विकाय दत्त हि पृथिवीपदे तस्मास्तवाभिभवतु ह्येतदेव हि भोजनं नृमांसं रक्षसमेव भोज्यं दत्तं माया त्वया तद्या हि राक्षसत्वं त्वं तदाहारोचितं नृपा इति शापम् ददत्यस्मिन् सौदासो भयविह्वलः आज्ञप्तो भवतैवेदि सकम्पोऽस्मव्यजिज्ञपद भूश्च चिन्तयामास वसिष्ठस्थेनोधिदः रक्षसा वञ्चिदम्भूपम् ज्ञाधवान् दिव्यचक्षुषा राजापि जलमादाय वशिष्ठम् शप्तुमुद्यतः समुद्यतं शप्तं दृष्ट्वा भूयो रूपान्वितं मदयन्ति प्रिया तस्य प्रत्युवाच सुव्रता मदयं त्युवाच भो भो क्षत्रियदायाधकोपसंहर्तुमर्हसि त्वया यत्कर्म भोक्तव्यं तत्प्राप्तम् नात्र संशयः गुरु तुं कृत्य हुं कृत्य यो वदे मृढधीर्नरः अरण्ये निर्जले देशस भवे गुह्य राक्षसः जिदेन्द्रियाजिदक्रोध गुरुशुश्रूषणे रतः प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः तयो क्रो भूभधिकोपं त्यक्त्वा भार्यां ननन्द जलं कुत्र क्षिपामीति चिन्तयामास चात्मना तज्जलं यत्र संसिकृतं तद्भवेद्भस्मचिच्चितं भस्मनिश्चितम् इति मत्वा जलं तत्तु पादयोर्ण्यक्षिपत् स्वयं तज्जलस्पर्शमात्रेण पादौ कल्माषदां गतौ कल्माषपाद इत्येवं तदप्रभृति विस्तृतः पादो मदिमान् प्रियश्चासितस्तदा मनसा सोऽधिभिदस्तु भवन्दे चरणं गुरोः उवाच च प्रपन्नस्तं प्राञ्जलिर्नय गोविदः क्षमस्व भगवन् सर्वं नापराधकृतो मया तच्चुत्वो वाजभूपालं मुनिर्निःश्वस्य दुःखितः आत्मानं गर्पयामा सह्यविवेकपरायणम् अविवेको हि सर्वेषाम् पदां परमं पदं विवेकरहितो लोके पशुरेवनसंशयः राज्ञा त्वजानदानूनमेतद्धर्मोचितं कृतम् विवेकरहितोज्ञोऽहं यतः पापं समाचरेद विवेकनियतो यादि यो वा को वापि निर्वृतिम् इत्युक्तवाचात्मनात्मानं प्रत्युवाच मुनिर्नृपं नात्यन्तिकं भवेदे दद्धा दशाब्दं भविष्यति गङ्गाबिन्दुभि शिक्रस्तु त्यक्त्वा वैराक्षसीं तनुं पूर्वरूपं त्वमापन्नो भोक्ष्यस्ये यदिनीमिमां तद्बिन्दुसेकसम्भूतज्ञानेन गतकल्मषः हरिसैवा परो भूत्वा परां शान्तिं गमिष्यसि इत्युक्त्वा धर्वविद्भूपम् वसिष्ठस्वश्रमं ययौ राजाभि दुःखसम्पन्नो राक्षसीं तानुमाश्रितः क्षुपिपाः सा विशेषार्थो नित्यं क्रोधपरायणः कृष्णक्षपाद्युतिर्भीमो विजने वने मृगांश्च विविधांस्तत्र मानुषांश्च सरीतृपान् वीहङ्गमान् प्लवङ्गांश्च प्रशस्तां स्थानभक्षयद अस्तिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः रक्तान्तप्रेतकेशैश्च चित्रासीद्भूभयङ्करी ऋदुत्रयेश पृथिवीम् सदयो जनविस्तृताम् कृत्वादिदुःखितां पश्चाद्वनान्तरमुपागमत तत्रापि कृतवान् नित्यं नरमांसाशनं सदा जगाम नर्मदातीरं मुनिसिद्धनिशेवितं विचरन् नर्मदातीरे सर्वलोकभयङ्करः अपश्यत् कञ्चन मुनिं रमन्दं प्रियया सः शुधा नलेन सं तप्तम् मुनिं समुपाद्रवद जाग्राह चादिवेगेन व्याधो मृगशिष्यं यथा ब्राह्मणी स्वपदिं वीक्ष्य निः चरकरस्थितं शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वला ब्राह्मण्युवाच भो भो नृपदिशार्दूलत्राहिमां भयविह्वलां प्राणप्रियप्रदानेन कुरुपूर्णं मनोरथं नाम्नामित्रसहस्त्वं हि सूर्यवंशसमुद्भवः नराक्षसस्तदो नाधां पाहि विजने वने या नारी भर्तृरहिता जीवत्यपि मृदोपमा तथापि बालवैधव्यं किं वक्ष्याम्यरिमर्दन न मादापितरौ जानेनापि बन्धुं च कञ्चन पदिरेव परो बन्धुः परमं जीवनं मम भवान्येत्यखिलान्धर्मान्योषिदां वर्तनं यथा त्रायस्व बन्धुरहितां बालापत्यां जनेश्वर कथं जीवामि पत्यास्मिन् हीनाहि विजने वने दुहिताकं भगवतस्त्राहि मां पदिदानतः प्रणदानात् दानं न न भविष्यति वदन्ती धीमः प्राणदानं कुरुष्व मे पपादास्य राक्षसस्य पदाग्रदः एवं सम्प्रार्थ्यमानो बिब्राह्मण्या राक्षसो द्विजम् अभक्षय कृष्णसारशिष्युम् व्याक्रोयथा बलात् ततो विलप्य बहुधा तस्य पत्नीपदिव्रदा पूर्वशापहदम्भूप मशपत्क्रोधिता पुनः पदि मे सुरतासक्तं यस्माधिंसिधवान् बलाद तस्मात् स्त्रीसङ्गमं प्राप्तस्त्वमिप्राप्स्यसे मृदिं षत्वैवं ब्राह्मणि क्रुद्ध्वा पुनः शापान्तरं ददौ राक्षसत्त्वं ध्रुवं तेऽस्तु मत्पदिर्भक्षितो यतः सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः प्रमन्युप्राहि विसृजन्कोपादङ्गारसंशयन् दुष्टेकस्मात् प्रदत्तं मे वृथा शापद्वयं त्वया ये कस्यैव पराधस्य शापस्त्वे को ममोचिदः यस्मात्क्षिपसि दुष्टाग्र्ये मयि शापन्तरं ततः पिशाच योनिमद्यैव या पुत्रसमन्विता तेनैवं ब्रह्मणी शब्दा पिशाच त्वं तदा कदा क्षुधार्ता सुस्वरं भीमारुरोदापत्य संयुता राक्षसश्च पिशाचीचक्रो सन्तौ निर्जने वने जग्मदुर्नर्मदाधिरे वनं राक्षससेवितम् औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमाश्रितः तत्रास्ते दुःखसं तप्तः कश्चिल्लोकविरोधकृत राक्षसं च पिशाचीं च दृष्ट्वा रवडमागतौ उवाच क्रोध बहुलो वटस्तो ब्रह्मराक्षसः किमर्थमागतौ भिमौ युवां मस्थानमीप्सितम् ईदृशौकेन केनपापेन जादौ मे ब्रुवदां ध्रुवं सौदा सस्तद्वज श्रुत्वा यच्चात्मना कृतं सर्वं निवेद पश्चादेदुवाचः सौदा स उवाच कस्त्वं वद महाभागत्वया वै किं घृतं पुरा सख्यो ममाधिस्नेहेन तत्सर्वं वक्तुमर्हसि करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः सखि पापपालं भुङ्क्ते यादनास्तु युगायुधं जन्तूनां सर्वदुःखा निक्षीयन्ते मित्रदर्शनाद तस्मान्मित्रेषु मदिमान् न कुर्याद् वञ्चनं कदा कल्माश पादेनेत्युक्तो वडस्थो ब्रह्म राक्षसः उवाच प्रीतिमा बन्नो धर्मवाक्यानि नारद ब्रह्मराक्षस उवाच विप्रो मागधो वेदभारगः सोमदत्तयिधिख्यादो नाम्ना धर्मपरायणः महाधाग महाभागविद्यया वयसाधनैः औदासीन्यं गुरो कृत्वा प्राप्तवानीदृशीं गतिं नलभेहं सुखं किञ्चिज्जिदा कारोदिदुःखितः मया दुभक्षिदा विप्राशदशोधसहस्रशः क्षुत्पिपासापरो नित्यमन्धस्ताबेन पीडितः जगत्रासकरो नित्यं मां सनपरायणः गौर्ववज्ञामनुष्याणां राक्षसत्त्वप्रदायिनी मयानुभूतमे दद्धि तदश्रीमान्न चाचरेद कल्माषपाद उवाच गुरुस्तु कीदृशप्रोक्त कस्त्वया श्लाघितपुरा तद्वदस्व सर्वे सर्वं परं कौतूहलं हि मे ब्रह्मराक्षस उवाच गुरवसन्धि बहवः पूज्या वन्द्याश्च सादरं यादानहं कथयिष्यामि शृणुष्वैकमनाः सर्वे अध्यापकश्च वेदानां वेदार्थयुधिबोधकः शास्त्रवक्ता धर्मवक्तानिधिशास्त्रोपदेशकः मन्त्रोपदेशव्याख्याख्या कृद्वेद सदंहकृदा व्रतोपदेशकश्चैव भयत्रान्नदो हि च स्वशूलो मातुलश्चैव ज्येष्टभ्राधा पिता तथा उपनेदा निषेक्दा च संस्कर्ता मित्रसत्तमा य देहि गुरवप्रोक्ता पूज्या वन्द्यश्च सादरम् कल्माषपाद उवाच गुरवो बहव प्रोक्ता यदेषां कदमो वरः तुल्य सर्वेऽप्युत सर्वे तद्यथा वद्धि ब्रूहि मे ब्रह्मराक्षस उवाच साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते गुरुमाहात्म्यकथनं श्रवणं चानुमोदनं सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि साम्प्रतं ये ते समानपूजार्हास् सर्वदा नात्र संशयः तथापि शृणुवक्ष्यामि शास्त्राणां सार निश्चयम् अध्या श्च वेदानां मन्त्रव्याख्याकृतस्तथा पिता च धर्मवक्त्रा च विशेषगुरवस्मृताः एतेषामपि भूपालशृणुष्वप्रवरं गुरुं सर्वशास्त्रार्थतत्त्वज्ञैर्भाषितं प्रवदामि ते यः पुराणानि वदति धर्मयुक्तानि पण्डितः संसारपार्श्वविच्छेदकरणानि स उत्तमः देवपूजार्थकर्माणि देवतापूजने फलम् जायतेच च जा पुराणेभ्यस्तस्मात्तानिह देवताः सर्ववेदार्थसराणि पुराणानीति भूपते वदन्ति मुनयश्चैव तदूक्ता परमो गुरुः यः संसारार्णत्वं तर्तुमुद्योगं कुरुते नरः शृणुयात्स पुराणानि इति शास्त्रविभागकृत प्रोक्तवान् सर्वधर्माश्च पुराणेषु महीपदे तर्कस्तु वाद वादहेतुीदिस्त्वैहिकसाधनम् मुत्र महाबुदे इुत्रुखा जशुणोदिपुराणा सतदं भक्ति निर्मला धर्म संयुद् तैन्र्मला बुद्धिभूर्मपरायण पुराणश्रवण्भक्तिर्जा श्रीपद शुभा विषु भक्नृणं भूप धर्म बुद्धि प्रवर्त धर्मात् पमानि नश्यन्ति ज्ञानं शुद्धं च जायते धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः शृणु युस्ते पुराणानि प्राहुरिद्धं पुराविदः असन्तु गौदममुने सर्वज्ञान् ब्रह्यवादिनः श्रुतवान् सर्वधर्मार्थगङ्गाधीरे मनोरमे कदाचित् परमेश्वस्य पूजां कर्तुमहं गतः उपस्थितायापि तस्मै प्रणामं न ह्यकाजिशं स दुःशान्तो महाबुद्धिर्गौतमस्तेजसां निधिः मन्त्रोदितानि कर्मणि करोदीति यस्त्वर्चितो मया देव शिव सर्वजगद्गुरुः गुर्ववज्ञां कृदयन राक्षसन्त्वे नियुक्तवान् ज्ञानदो ज्ञानदो वापि यो वचां कुरुदे गुरोः तस्यैवाशु प्रणश्यन्ति धी विद्यार्थात्मजक्रियाः शुश्रूषां कुरुते यस्तु दरं नरः तस्य सम्बद्भवेद्भूप इति प्राहुर्विपश्चिदः तेन शापेन दग्धोऽहमन्तश्चैव क्षदाग्निना मोक्षं कथं प्रयास्यामि न जाने नृपसत्तम एवं वदति विप्रेन्द्रवटस्थेस्मिन्निशाचरे धर्मशास्त्रप्रसङ्गेन तयो पापं क्षयं गतम् एतस्मिन्नन्तरे प्राप्त कश्चिद्विप्रोदि धार्मिकः संभूदो नाह्मा गर्ग इति स्मृदः वखन् गङ्गाजलं स्कन्धे स्तुवन्विश्वेश्वरं प्रभुं गाह्यन्नामानि तस्यैव मुदा तमागतं मुनिं पिशाची राक्षसौ च तौ प्राप्तं नः पारणेत्युक्त्वा प्राध्ववन् ऊर्ध्वबाहवः तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः अचक्रास्तं दर्शयितुमिदमूचुश्च राक्षसाः अहो विप्रमहाभाग नमस्तुभ्यं महात्मने नामकीर्तनमाहात्म्या द्राक्षसा दूरगावयम् अस्माभिर्भक्षिता पूर्वं विप्रा कोटिसहस्रशः नामप्रावरणं विप्र रक्षदि त्वां महाभयाद नामश्रवणमात्रेण राक्षसा अपि परां शान्तिं समापन्ना महिं ना ह्यच्युतस्य वै सर्वधात्वमहाभागरागादिरुहितो ह्यसि गङ्गाजलाभिषेकेण पाह्यस्मात् पादकोच्चयात् हरिसेवा परो भूत्वा यश्चात्मानं तु स तारयेज्जगत्सर्वमिति शंसन्धिसूरयः अवहाय हरेर्नाम घोरसंसारभेषजं केनोपायेन लभ्येद मुक्तिसर्वत्र डुबेन प्रदरन प्रतरन्निमजत्युदके यथा तदैवाकृतपुण्यास्तु तारयन्ति कथम् परान् अहोचरित्रं महदां सर्वलोकसुखावहं यथा हि सर्वलोकानामानन्दाय कलानिधिः पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तमं तानि सर्वाणि गङ्गाया कणस्यापि समानिन तुलसीदलप्रदलसम्मिश्रमपि सर्षपमात्रकम् गंगाजलं गङ्गाजलं पुनत्येव कुलानामेकविंशतिं तस्माद्विप्रमः सर्वशास्त्रार्थकोविद गङ्गाजलप्रदानेन पाप्मं स्मान् पापकर्मिणः इत्याख्यादं राक्षसायष्टैर्गङ्गामाहात्म्यमुत्तमं निशम्य विस्मयाविष्टो बभूवद्विजसप्तमः येषामपि दशि भक्तिर्गङ्गायां लोकमादरि किमुज्ञानप्रभावाणां महदां पुण्यशालिनाम् अथा सौ मनसा धर्मं विनिश्चित्य द्विजोत्तमः सर्वभूतहितो कृपाविष्ठो गङ्गाजलप्रनुत्तमं तुलसीदलसम्मिश्रं तेषु रक्षस्वस्ये च यत् राक्षसास्ते न शिख्रास्तु सर्षपोपमबिन्दुना विमृज्य राक्षसं भावम भवन् देवदोपमाः ब्राह्मणी पुत्रसम्यक्ते जग्मूर्हस्तथैव च कोडिसूर्यप्रदिकाश बभूवुर्विबुधुर्प्रभाः शङ्खचक्रगदाचिह्ना हरिसारूप्यमागताः स्तुवन्दो ब्राह्मणम् सम्यक्ते जग्मुर्हरिमन्दिरम् राजा कल्माष पादस्तु निजरूपम् समास्थितः जगाममहतीं चिन्तां दृष्ट्वा तान्मुक्तिगानस्मिन् राज्ञि सुदुःखार्चे गूढरूपा सरस्वती धर्ममूलं महावाक्यं बभाषे गधया गिरा भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि राजस्तवापि सत्कर्म महच्छ्रेयो पापाये सत्कर्मधूतपापाये हरिभक्तिपरायणाः प्रयान्ति नात्र सन्देहस्तद्विष्णोः परमं पदं सर्वभूतदयायुक्ता धर्ममार्गप्रवर्तिनः प्रयान्ति परमं स्थानं गुरुपूजापरायणाः इदीरिदं समाकर्ण्य भारत्या नृप सप्तमः मनस्स निर्वृत्तिं प्राप्य सस्मारज गुरोर्वचः स्तुवन् गुरुं चदं विघ्नं हरिं चैवादिहर्षिदः पीर्ववृत्तं च विप्राय सर्वं तस्मै न्यवेदयद ततो नृपस्तु नामानि व्याहरन व्याहरन्विष्णो सद्यो वाराणसीं ययौ षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदाशिवं ब्राह्मणि तत्तश पातु मुक्तो मित्र सहो भवद ततस्तु स्वपुरयिं प्राप्तो वसिष्ठे न महात्मना अभिषिक्तो मुनिश्रेष्ठस्वगं राज्यमपालयद पालयित्वामहीं कृस्त्रां भुक्त्वा भोगान् स्त्रियं विना वसिष्ठात् प्राप्य सन्धानं गतो मोक्षं नृगोत्तमः नैतचित्रं द्विजश्रेष्ठ विष्णोर्वाराणसीगुणान् गृह्णन् शृण्वन् स्मरन् गङ्गां पीत्वा मुक्तो भवेन्नरः तस्मान्माहिं ने विप्रेन्द्र गङ्गाया शक्यते न हि पारं गन्तुं सुराधीशैर्ब्रह्मविष्णुशिवैरपि यन्नामस्मरणादेव महापादकोडिभिः विमुक्तो ब्रह्मसदनं नरो यादिनसंशयः गङ्गा गङ्गेदि यन्नाम सहृदप्युच्यते यदा तदैव पापनिर्मुक्तो ब्रह्मलोगे महीयते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये नवमोऽध्यायः ओम्